साधूनाम् पुण्यशीलानाम् मुनीनाम् पुण्यकर्मणाम् त्वम् सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् त्वत्प्रसादात् सदा शैल ब्राह्मणाः क्षत्रिया विशः स्वर्गम् प्राप्ताश्चरन्ति स्म देवैः सहगतव्यथाः अद्रिराजमहाशैल मुनिसंश्रयतीर्थवन् गच्छाम्यामन्त्रयामि त्वाम् सुखमस्म्युषितस्त्वयि तवसानूनि सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः